सी हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्रा वाल्मीकि रामायण युद्धकाण्डे षष्ठीतमः स्वपराजयेन विषन्नस्य रावणस्य आदेशेन सुप्तस्य कुम्भकर्णस्य प्रबोधनं तदृष्ट्वानराणां भयं च स प्रवेश्य पुरीं लङ्काम् रामबाण भयादितः भग्नदर्प तदा राजा बभूव व्यसितेन्द्रियः मातङ्ग इव सिंहेन अभिभूतो भवद्राजा राघवेण महात्मना ब्रह्मदण्डः प्रतीकानां विद्युत् चरितवर्चसां स्मरन्दाघवबाणानाम् विव्यथे राक्षसेश्वरः स काञ्चनमयम् दिव्यम् आचरित्य परमासनम् विप्रेक्षमाणो रक्षासि रावणो राक्य वाक्यमब्रवीत् सर्वं तत् खलु मे मोघम् यत् तप्तम् परमं तपः यत् समानो महेन्द्रेण मानुषेण विनिर्जितः इदं तद्ब्रह्मणो घोरम् वाक्यम् माम् अभ्युपस्थितम् मानुषेभ्यो विजानीहि भयम् त्वमिति तत्तथा देव दानवगन्धर्वै यक्षराक्षसपन्नघैः अवध्यत्वम् मया प्रोक्तम् मानुषेभ्यो न याचितम् तमिमम् मानुषम् मन्ये रामम् दशरथात्मजम् इक्ष्वाकुकुलजातेन अनरण्ये न यत्पुराय उत्प्यति मद्दों पुषो राक्षसा धम यम सबल शथि नग्राम कुलम धुर्मते शहम वेदवत्या से यहां सीता महाभाग जाता जनकनंदनी उमानन्दीश्वर चापि रम्भाय वरुणकन्यका यथोक्ता तन्मया प्राप्तम् न मिथ्या ऋषि एतदेव समागम्य यत्नम् कर्तुम् विहाहत राक्षसा चापि तिष्ठन्तु चर्या देव, देव दानवदर्पः ब्रह्मशापाभूत कुंभकर्णो विबोध्यता समितोदित ज्ञाक्ष आदिदेश महाबल द्वारु यहाँ चाधिताद्रविश कुंभकर्णो विबोध्यता सुखम् स्वपीति निश्चिन्त्य कामोपहत चेतनः नव सप्त दशाष्टौ च माषान् स्वपीति राक्षसः कृत्वा प्रसुप्तोऽयम् इतस्तु नवमेहनी तत्तु बोधयत क्षिप्रम् महबलं महबलम् सही सङ्ख्ये महबाहु ककुदम् सर्व रक्षसाम् वानराम् राजपुत्रो च क्षिप्रम्भेव हनिष्यति एष केतो परम् सङ्ख्ये मुख्यो वै सर्वराक्षसाम् कुम्भकर्ण स मूढो ग्राम्य सुखे रतः रामेणाभि निरस्तस्य सङ्ग्रामेऽस्मिन् सुधारुणे भविष्यति न मे शोक कुम्भकर्णे किं करिष्याम्यहम् तेन शक्रतुल्यबलेन हि ईदृशे व्यसने घोरे यो न साहाय्य कल्पते ते तु तद्वचनम् श्रुत्वा राक्षसेन्द्रस्य राक्षसाः जग्मो परमसम्भ्रान्ता कुम्भकर्ण निवेशनम् ते रावर्ण समादिष्ट मासशोणितभोजनः गंधम माल्यम महदक्ष्यम आदा सतायु तवेश महाद्वारसो योजनाय कुंभकर्ण गुहाम रम्यागंध प्रवाहि कुंभकर्णच निश्वास अवधूत महबल प्रतिष्ठ मना कृष्ण युहा ं प्रविश्य गुहां रम्यां रत्नकाञ्चन कुटिमान् ददृशुर्नैर्तव्याघ्र शयनं भीमविक्रमम् ते तु तं विकृतं सुप्तम् विकिरणमिव पर्वतम् कुम्भकर्णम्द्रम् समेता प्रत्यबोधयन् ऊर्ध्वमाञ्चतनु श्वसन्तमिव पन्नघम् भ्रमयन्तं विनिश्वासै शयनम् भीमविक्रमं विक्रमम् भीमनासः पुटन्तं तु पाताल विपुलाननम् शयने न्यस्त सर्वाङ्गम् मेदोरुधिरगन्धिनम् काञ्चनाङ्गद्धाङ्गम् किरीटेनार्कवर्चसम् कुम्भकर्णम् अरिन्दमम् ततश्चक्रुर्मत्मान कुम्भकर्णस्य च गृत भूतार्पणं गृहाणां वैषाणां च वराणां च संशयन् चक्रुर्नैरुतु शादूलः राशिं मन्नस्य चाद्भुतं ततशोणित मासानि विविधानि च पुरस्तात् कुम्भकर्णस्य चकुर्थी चे, श्री दश शत्रवः लिलीपुश्च पराध्येन चन्दनेन परन्तपम् दिव्य आश्वासयामासु माल्यै गन्धै च रन्धिभिः धूपगन्धा च सदृज तुष्टुश्च परन्तपम् जरदायीव च या सुधानास्ततः शङ्काश्च पूरयामासु शशाङ्कसदृशप्रभाम् समलम् युगपच्चापि विनेदुश्चाप्यमर्चितः नेदुः स्फोटयामासु चिक्षिपुस्ते निशाचरः कुम्भकर्णा विबोधार्यम् चक्रुस्ते विपुरं स शङ्खी प्रणवप्रणां प्रणादम् साकोष्ठनादम् दिशो द्रवन्तः त्रिदिवं किरन्त श्रुत्वा विङ्गेतु यदा भृशं तैर्दये महात्म न कुम्भकर्णो बुभे प्रसुप्त ततो भूषुण्डि सर्वे रक्षो वर्णासे गुरुर्गदाश्च शैल शृङ्गै मुसलैर्गदाभि वक्षस्थले मुष्टिभिः च सुखप्रसुक्तम् भुवि कुम्भकर्णम् रक्षा सुद्रहणी तदा निजग्नुश्वासवातेन कुम्भकर्णस्य रक्षसे राक्षसः कुम्भकर्णस्य स्थातुं चेकोर्न चाग्रतः ततः परीहितागाढम् राक्षसा भीमक विक्रमः मृदङ्गणवान्धेरि शङ्ख कुम्भ गणात दश राक्षसहस्रम् युगपत् पर्यवारय नीलाञ्जन च आकारम् ते तु अभिघ्नन्त नदन्तश्च न बुबुधे शम्बुबुबुधे तदा यदा चैनं न चेकूर्ते प्रतिबोधयितुं ददय तत् गुरुतरम् यत्नम् दारुणम् समुपक्रमन् अश्वानुष्ठान् करान् आगान् जग्नुर्दण्ड कशाङ्कुशै डैरी शङ्ख मृदङ्गाश सर्वप्राणैर्वादयन् निजग्नु चास्य गात्राणि महाकाष्ठ कटङ्करैः मुद्धरै मुसरैश्चापि सर्वप्राणः सम्मुद्यते तेन नादेन महता लङ्का सर्वा प्रपूरितः स ततो भेरी सहस्रं युगप सुमन्यथ मृष्टकाञ्चन कोणानाम् असक्तानां समन्ततः एवमप्यति निद्रस्तु यदा नैव प्रबोध्यते शापस्य वयमापन् ततः क्रुद्धाः निशाचरः ततः कोपसमाविष्ट सर्वे भीमपराक्रमः तद्रक्षो बोधयिष्यन्ते चक्रुर पर अन्े फे साम ज्नु अन्य चक्रुर्मस्वनम कशाने कर्ण दशंती च उद कुंभ शन सींच कर्णयु न कुंभकर्ण पशंद महा निद्र वशंगते अन्लिस्त कूटमुद्गरपाणयः मूर्निवक्षि गात्रेषु पातयन् कूटमुद्गरम् रज्जुबन्धनबद्धाभि शतघ्नेभिश्च सर्वतः वध्यमानो महाकायो न प्राबुध्यत राक्षसः वारणानां सहस्रं च शरीरे च प्रधावितम् सदा बुद्ध्वा स्पर्शम् परम परमबुध्यते सपाठ्यमानैर्गिरिशृङ्गभृक्षै अचिन्तयन्तान्द्रिपुलान्द्रहारम् निद्राक्षयन् शुभयपीडितश्च विजृम्भमाणे स स्वतप स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहूजितवज्रसारौ विवृत्य वक्त्रं वडवामुखाभम् निशाचरो स विकृतं जुम्बु जृम्भे तस्य जाजुम्भ्रमाणस्य वस्त्रं पातालसन्निभम् ददृशे मेरुशृङ्गागृहे दिवाकर इवोदितः स जुम्भ्रमाणोऽति बलहे प्रबुद्धस्तु निशाचरहे निश्वास चाजने पर्वता दिव आमृत मुक्शत तुंभकर्ण्य तब युगा काल से तीप्ता सदृश विद्युत सदृश वर्चे देश महने दीप्ता वह महाग्रह सदस दर्शयन् सर्वान् भक्ष्यां च विविधान् बहून् वराहन् महिषां चैव बभक्षे स महर अद्य बुभोक्षितो मासं शोणितं त्रिजितोऽपि भवेत् मेद कुम्भां च मध्यां च वपोचक्र रिपुस्तर शिरोभिश्च प्रणम्यैनम् सर्वतः पर्यवारयन् निद्राविषेदनेत्रस्तु कलुषीकृतलोचन चालयन् सर्वतो दृष्टिं तान्द्र च निशाचरन् सर्वान् तान् तयामास नैरुतान् नैरुत शभ बोधनात्मविस्मितश्चापि राक्षसान् निदमब्रवीत् किए प्रतिबोधित कचिव सुकुशलम रो भ कि अथवा दूरमण्यो भय पर उपस्थित यदम्वरतेबो अदय राक्षसराज से भय उत्टयाम्यह दारि चे महेन्द्रम् वः शीतैश्चे तथा नलम् न ह्यल्पकारणे सुप्तम् बोधैषति मादृशम् तदाख्यातार्थतत्त्वेन मत्त्र बोधनकारणम् एवम् ब्रुवाणम् संरब्धम् कुम्भकर्णम् मरिन्दमम् युपाक्ष सचिवो नो देव कृतं किञ्चित् भयमस्ति कदाचन मानुषा नो भयं, भयं राजन् तुमलं सम्प्रबाधते न दैत्य दानवेभ्यो वा भयमस्ति न न क्वचित् यादृशं मानुषं राजन् भयम् अस्मानुपस्थितं वानवे पर्वताकारे लङ्केयं परिवारित सीताहरणसन्तप्तात् रामान्नाय तुमलम्भयम् एकेन वारणेनेयं पूर्वं दग्ध्वा महापुरी कुमारो नेतश्चाक्षर साम्यात्र सकुञ्जरः स्वयं रक्षोऽधिपैश्चापि पौलस्यो देवकण्टकः व्रजेति संयुगे मुक्तो रामेण आदित्यवर्चतः यन्न देवैः कृतो राजा नापि दैत्ये न दानवे कुतश्च ह्येरमे विमुक्ते प्राणसंशय स यूपाक्ष एव च श्रुत्वा भ्रातुर्यूधि पराभवम् कुम्भकर्णो विवृताक्षो यूपाक्षम् इदमब्रवीत् सर्वम् अद्यैव यूपाक्षे हरिसैन्यम् स लक्ष्मणम् राघवं च ऋणे जीत्वा ततो द्रक्ष्यामि रावणम् राक्षसान् तर्पयिष्यामि हरिणां मास शोणितै राम लक्ष्मणयो चापि स्वयं पास्यामि शोणितम् तत्तस्य वाक्यं ब्रोतो निशम्य स गर्वम् महोदरो नैरतयोधमुख्ये उताञ्जलिर्वाक्यमिदम्बभाषे रावणस्य वच श्रुत्वा गुणदोषो विमृश च पश्चादपि महाबहु शत्रुन् योधि विजेषसि महोदर वच श्रुत्वा राक्षसी परिवारितः कुम्भकर्णो महातेज सम्प्रतस्थे महाव सुप्तम् उत्थाप भीमाक्षम् ्रमक्षस दश ग्रीव निवेशम्य दश ग्रीव आसने बद्दाजिपुट सर्व निशाचर कुंभकर्ण प्रबुद्धसौ प्रातापे राक्षसेखर कथम त्रेव नि द्रक्षसे तं यागतम् रावणस्त्वब्रविधृष्टौ राक्षसान् तानुपस्थितान् द्रष्टुमैनम् यच्छामि यथा न्यायम् च पूज्यताम् तथेत्युक्तः सुते सर्वे पुनरागम्य राक्षसाः कुम्भकर्णम् इदम् वाक्यम् रावणचोदितः द्रष्टुं तां राजाय सर्व राक्षस भगवै गमनये क्रियताम् बुद्धिः भ्रातरम् सम्प्रशय कुम्भकर्णः सुदुर्धशो भ्रात्वा न्याय चासनम् तथेत्युक्त्वा महावीर्य शयनपपातः प्रक्षाल्य वदनम् स्नाते स्नाथय परम हर्षितः कृपासु त्वरयामास ल समेरणम् तदस्ते त्वरिता तत्र राक्षस रावणाज्ञय मद्यं भक्ष्या च विविधाय क्षिप्रं देवोपहारयन् पीत्वा घट सहस्रे द्वे गमनायोपचक्रमे ईषत समुत्कटो मत् कुम्भकर्णो बभो कालान्तैकयमोपमः भ्रातु स भवनं गच्छन् रक्षो बालसमन्वितः कुम्भकर्णपदन्यासे एकम्पतमेदिनीम् स्वराजमार्गम् बुपुषा प्रकाशयन् सहस्ररश्मी धरणिं विवांशुभिः भी, जगामत त्राञ्जलिमालया शतक्रतुर् गेहम्यहमिव स्वयं भुवै तं राजमार्गाति मनोकसस्थे सहसा वैस्थिताय दृष्ट्वा प्रमेयं गिरिशृङ्गकल्पम् वितत्र सुस्थे स यूथपाले केचित् चरणं स्मरामरम् व्रजन्ति केचिद् व्यतिता केचिद्दिश च व्यथिता पतन्ति केचिद् भया स भुविषे स्म तम् अद्रि शृङ्गमाधीत्यमिवात् पतेजस मनोकप्रेक्ष विवृद्ध अद्भुतं भयार्चिता दुद्रु विरेय युद्धकाण्डे षष्टितमत्सर्ग श्रीसीतारामचन्द्रार्वणमस्तु